श्रीमन श्रीम्मत आदिपर्व आस्तीकपर्व तक्षकंशेच्वरध्या तक्षकवाच यदि दष्ट मए हम शक्त किंचिच्चिकित वृक्षम मैं दष्टिमं जीवय काश्यप परम मंत्रबल ये तदर्शयतस्व न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तमा काश्यप उवाच दश नागेन्द्रवृक्षन्त्वं यद्येतदभिमन्यसे अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गमा सौतिरुवाच एवमुक्तः स काश्यपेन महात्मना अदशद्वृक्षमभ्येत्य निग्रोधम् पन्नगोत्तमः सवृक्षस्तेन दष्टस्तु पन्नगेन महात्मना आशिविषविशोपेतः प्रज्ज्वालसमन्ततः नागः काश्यपम् पुनरब्रवीत् कुरु यत्नं द्विजश्रेष्ठजीवयैनम् वनस्पतिम् सौतिरुवाच भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् विद्याबलम् पन्नगेन्द्र पश्य मेद्यवनस्पतौ अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम ततः स भगवान् विद्वान् काश्यपो द्विजसत्तमः भस्मराशीकृतं वृक्षं विद्यया समजीवयत् अङ्कुरं कृतवांस्तत्र ततः पर्णाद्वयान्वितं पलाशिनं शाखिनञ्च तथा विटपिनं पुनः तं तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना उवाच तक्षको ब्रह्मन्नैतदत्यद्भुतं त्वयि द्विजेन्द्र यद्व हनिया मम वा मद्धस्वा कंथम प्रेपुसी तपोधना ये भीलषित प्राप्त फलम तस्माहमे प्रदाया तत्ते युर्लभम विप्रशाभूते चीणाषि नाधिपे घटमानस्यते ते विप्रसिद्धिः भवेत् ततो यशः प्रदीप्तंते त्रिषु लोकेषु विश्रुतं धर्मां शुरन्तर्धानमितो व्रजेत् काश्यपौवाच धनार्थियाम्यहं तत्र तन्मे देहि भुजङ्गमा ततोऽहं विनिवर्तिष्ये स्वापतेयं प्रगृह्य तक्षक उवाच यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् अहमेव प्रदास्यामि निवर्तस्व द्विजोत्तम सौतिरुवाच तक्षकस्य वचश्रुत्वा काश्यपो द्विजसत्तमः प्रदध्योऽसु महातेजाराजानं प्रतिबुद्धिमान् दिव्यज्ञानः स तेजस्वी ज्ञात्वा तन्दृपतिं तदा क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः लब्ध्वा वित्तं मुनिवरस्तक्षकार्यावदीप्सितं निवृत्ते काश्यपे तस्मिन् समयेन महात्मनि जगामतक्षकस्तूर्णं नगरं नागसाह्वयम् अथ शुश्रावगच्छन् स तक्षको जगतीपतिम् मन्त्रैर्गदैर्विषहरैरक्ष्यमाणम् प्रयत्नतः सौ तिरुवाच सचिन्तयामा स तदा मायायोगेन पार्थिवः मया सौक उपायो भवेदिति ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान् फलदर्भोदकं गृह्य राज्ञेनागोथ तक्षकः तक्षक उवाच गच्छध्वं यूयमव्यग्राराजानं कार्यवत्तया फलपुष्पोदकं नाम प्रतिग्राहयितुं नृपम् सौतिरुवाच ते तक्षक तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च तच्च सर्वम् स राजेन्द्रः वीर्यवान कृत्वा तेषाम् च कार्याणि गम्यतामित्युवाच तान् गतेषु तेषु नागेषु तापसच्छद्मरूपिषु अमात्यान्सुहृदश्चैव प्रोवाच स भक्षयन्तु भवन्तो वै स्वादू ने सर्वश्तापसैरुपनी फला सहिता मैया तचिव मैच्छत, विधि संप्रयुक्त वै ऋषिवाक्यू यस्लेनागस्तमें भक्ष तथो भक्षत फला कृमिरभूदणुः ह्रस्वकः कृष्णनयनस्ताम्रवर्णोऽथ शौनकः सतङ्गृह्य नृपः श्रेष्ठः सचिवानिदमब्रवीत् अस्तमभ्येति सत् सविताविषादद्यनमेभयम् सत्यवागस्तु समुनिः कृमिर्माम् दशतामयम् तक्षको नाम भूत्वा वै तथा परिहृतम् भवेत् ते चैनमन्ववर्तन्तमन्त्रिणः कालचोदिताः एवमुक्त्वा स न राजेन्द्रो ग्रीवायां प्राह कृमिकम् प्राहसत्तूर्णम् चेतनः प्रहसन्नेव भोगेन तक्षकेण त्ववेष्ट्यत तस्मात् फलाद्विनिष्क्रम्य यत्तद्राज्ञे वेष्टयित्वा च वेगेन विनद्य च महास्वनम् अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः इति श्रीमन्महाभारते आदिपर्वणि आस्तिकपर्वणि तक्षकदंशे त्रिचत्वारिंशोऽध्यायः